मुद्गलपुराण खंडम टू एकचर अध्यावीपर्णन श्रीगणेशा नम मुद्गल उवाच प्रियव्रत पुत्राश्च, पुत्राश दशोत्पन्ना महौजस तेजस्वीनों धर्मशीला विख्या बलवत्रा आग्नीध्रयुद्मज्जिह्वश्च यज्ञबाहुस्तथा महान् वीरो सवनो हृदपृष्टकः मेधातिथिर्विदिहोत्रः कविःपितृसमा बभुः सवन नराज्ये सवनवीरौ दधिरे मदिम् कुदाफपरे, पुत्रं सप्तीपरास्त सपुत्रकुदापरिजुद्वीपेशर पुत्रक नृप्सीपेशनेजिहश कृद सुधमले वैयजाकुं राजा तमीषिवा चक्रे, कुशद्वीपेश्वरं सुदं, क्रौञ्चद्वीपेश्वरं चैव कृतपृष्टं चकारः मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतं पुष्करे शंसराजा तु विधिहोत्रं चकारः राजा वन प्रा प्रतापवागम गाणपत्यो बभूव अन्दे गणेश संगस प्रियव्रतसमो राजूद न भविष्य पुष्क वीतिहोत्र से दव पुत्रौ संबूवधु रमणो धादकिर्नाम महावीर्यौ सुधर्मिणौ रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः धादकेश्चापि खण्डोऽयं बुधैर्धातकिरुच्यते एकोद्रिर्मानसाख्यश्च तन्मध्ये वलया योजनानां सहस्राणि दशोत्सेधसनान्तदः दशसहस्रवर्षाणि जीवनं तत्र विद्यते तत्र ब्रह्मा स्वयं साक्षाद्वीपे तिष्ठति पुष्करे तं सुरा मानवाद्याश्च पूजयन्ति निरन्तरं स्वादूदकेन वैदक्षवृतोद्वीपः समन्तदः योजनानां चतुष्षष्टिलक्षं सिन्धुस्व सोद्भुतः तत्रान्ते पर्वतो रम्यो लोका लोका लोका लोकालोकाह्वय स्मृतः एकत्र लोकसंवास एकतो लोकवर्जितः लोकालोकाचलादत्र प्रकाश्चंद्र सूर्यो कस्म पर्रो दक्ष अंधकार सोका लोकाचलस्न कधी मुनि पुरा पुष्क बहवो नद्यो मानसाचलवादूतका निर्मला सर्वभावदः। तासां जलस्य पानेन रोगा नश्यन्ति दुःखदाः क्लमस्वेदादिकं सर्वं विद्यतेन कदाचन शाकद्वीपेश्वरस्याध सप्त पुत्रास्तथाभवन् पवमानस्ततः पूर्वौ पुरो जव मनो जवौ धूम्राणी बहुरूपो जगद्धरः सप्तखण्डाश्च तद्वीपे पर्वताः सप्त मुख्यकाः पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते मनोजवस्य तन्नाम्ना खण्डमन्यत् पवमानस्य खण्डं वै पावमानात्मकं तथा धौम्रणीकं चतुर्धं वै पंचमं चैत्ररेफकम् बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमं पालयामासुरव्यग्रास्वं स्वं, स्वं खण्डं प्रजापदे दशसहस्रवर्षाणि तत्र वै जीवनं स्मृतम् नराणां दोषहीनानां सदा यौवनशालिनां दधिमण्डोदकाख्येन संवृतो द्वीप उत्तमः तावन्मानेन युक्रेन योजनानां प्रजापदे विस्तारो योजनानां च द्वात्रिंशल्लक्षसम्मितः द्वीपस्य च नरास्तत्र यजन्ते वायुमीश्वरम् क्रौञ्चद्वीपस्य विस्तारो लक्षषोडशकं मुने योजनानां समाख्याधः सप्तवै च सप्त वै पर्वताः सप्त तत्रैव सप्तप्रकीर्तिताः अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः कृतपृष्ठसुधास्तत्र सप्त खण्डेश्वरा खण्डास्तेषाम् प्रजापदे आ मोमधुरुहः एकादशसहस्रं तु वर्षाणां जीवनं नृणां यजन्त्यापोमयं तत्र सदा नारायणं जनाः क्षीरोदेन समन्ताच्च संवृतो द्वीप आदराद तावद्विस्तारभूतश्च स्वेदद्वीपोऽपि सस्मृतः हिण्य रेत सप्तकुशद्वीपद सु वसुच्च वसुदान दृढ़य सत्यव्रतो नाभिगु विवृदा देव स्वस्वना जैकंठा सप्त प्रजापद तत्रैव पर्वता सप्त मर्यादा गिरय स्मृताः नद्यः सप्तमः वेगास् सुजला दुःखहारकाः दशसहस्रवर्षाणि जीवनं तत्र विद्यते योजनानां कुशद्वीपश्चाष्टलक्षप्रमाणकः कृतो देनावृतसम्यक् तावदायामरूपिणा सर्वतस्तत्र देवेश्यं हव्यवाहम् यजन्ति ते शाल्पमलद्वीपनाथस्य यज्ञबाहोऽसुधा स्मृताः सुरोचनसौमनस्यो रमणो आप्यायनपारिभद्रो विज्ञातः तत्तन्नाम्ना च विख्याताः प्रजापदे नद्यः सप्तमहावेगाः पर्वताः सप्ततत्र वै चदुर्लक्षं, चतुर्लक्षम् विस्तारस्तस्य सर्वतः सुरोदेनवृतसोऽपि तावतायामरूपिणा नराणाम् जीवनम् तत्रा षट्सहस्रसमाखिल पृक्षद्वीपेश्वरस्याध्येत्मजिह्वस्य सुधास्तथा शिवो यवयस्तैव क्षान्दक्षेम सुभद्रकाः अमृतोभयसंज्ञश्च सप्तैदे परिकीर्तिताः स्वस्वनामाङ्गिता खण्डास्तेषां तत्र गिरयः सप्त तत्रैव नद्यः सप्तमहाजलाः नराणां जीवनं तत्र पञ्चवर्षसहस्रकम् द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः इक्षूणाञ्च रसोदेन तावदा परिसंवृदः लक्षद्वीपे यजन्ते वै सूर्यं धर्मपरायणाः वृष्टि संश्राविणम् देवम् तेजोरूपेण संस्थितम् प्लक्षद्वीपादिषु ज्ञेयम् शादद्वीपादिमेषु वै वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः पुष्करे सर्वधर्मज्ञाम् एकमार्गम् समाश्रिताः एकवर्णाश्रमास्तत्र समशीलाः प्रजापदे न तेषु युगमानं च युगधर्मस्वभावदः सदा समानकालश्च स्वर्धमस्तादृशस्मृतः न लोभो न च नरास्ते पुण्यशीला वै स्वदाररततोषिणः कर्मणां बलभोक्दारो तेषु द्वीपेषु शौनक बभूवो भाविका सर्वे देववत्क्रीडने रदाः स्वस्वद्वीपस्थिदं देवमभजं स्ते तदः सुखं सम्प्रापुस्ते जनाः सर्वे सा लोक्यादि चतुष्टयम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे जगदन्तचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ओम्